श्रीमद्भागवद्महापुराणं दशस्कन्धम् असप्ताशीतितमोऽध्यायः वेदस्तुतिः परीक्षिदुवाच ब्रह्मण् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः कथं चरन्ति श्रुतयः साक्षात् सदसतपरे श्रीशुकुवाच बुद्धिन्द्रियमनप्राणाञ्जनानामसृजत्प्रभो मन्त्रार्थं च भवार्थं च आत्मने कल्पनाय च शेषाशुपनिषद्ब्राह्मी पूर्वेषां पूर्वजयधृतां श्रद्धया धार्येद्यस्तां क्षेमं गच्छेद किञ्चनः अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् नारदस्य च संवादं ऋषे नारायणस्य च एकदा नारदौ लोकान् पर्यटन् भगवत्प्रियः सनातनवृषिं द्रष्टुं ययौ नारायणाश्रमं यो वै भारतवर्षेऽस्मिन् क्षेमाय स्वस्थये गृणां धर्मज्ञानशमोपेताम् अकल्पादासितस्तपः तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः परीतं प्रणतो पृच्छन् इदमेव कुरुद्वः तस्मै शवोचन् भगवान् श्रीणां शृण्वतामिदं यो ब्रह्मवादपूर्वेषां जनलोकनिवासिनां श्रीभगवानुवाच स्वायम्भुव ब्रह्मशत्रं जललोके भवत्पुरा तत्रस्थानां मानसानां मुनीनामुरुध्वरेतसां श्वेतदीपं गतम् वती त्वयि द्रष्टुं तदीश्वरं ब्रह्मवाद सुसंवृत्तः श्रुतयो यत्र सेरते तत्र हायमभूत्प्रश्नं त्वं वां यमन् पृच्छसि तुल्यश्रुतसपशिला तुल्यवीयारिमध्यमाः अपि चक्रो प्रवचनमेकं शश्रु सवोपरे शनन्दन उवाच स्वश्रेष्ठमिदमापीयशयानं शशक्तिभिः तदन्ते बोधयाश्चक्रो तस्मि लिङ्गैः श्रुतयपरम् यथाशयानं सम्राजं वन्दिनस्तत्पराक्रमैः प्रत्युषेभ्येत्य शुश्लोकैर्बोधयन्त्यनुजीविनः श्रुते उचुः जय जय जयजामजेन्दु गृहीतगुणां त्वमसि यदात्मना सां समवरुद्ध समस्तभग अग्जगदोकसामखिलशक्त्यवबोधकत्ते क्वचिदजयात्मना च च च चरतोनुचरेन्निगमः बृहदुपलब्धमेतदमयन्त्यवशेषयां यत उदया तं तमय विकृतेर्मृदि वा विकृतात् अत ऋषियो दधुस्त्वयि मनोवचनाचरितम् कथं यथा भवन्ति भुविन्दपदा नृणाम् इति तव सूर्यस्त्यधिपतेखिलोकबलक्षपलकथामृताब्धि न गाय तपांशुजहुः किमुत पुनः स्वधामविधुताश कालगुणाः परं भजन्ति ये पदमजस्र सुखानुभवम् धृत इव सुसन्त्य सुभृतो यदि तेऽनुविधा महदमादयोमसृजन् यदनुग्रहतः पुरसविधोन्मयोत्रचरमोन्नमयादिसूय सदसत परं तमथ यदिष्वशेषमृतम् उदरमुपासते च ऋथिवरं वर्त्मसु कुरु प्रदृष्ट तरी सरपद्धतिं श्रियमारुणयोदहरं तत उद्गादनन्त तं तव धाम शिरपरमं पुनर्हि यत्समेत्य न पतन्ते कृतान्मुखे स्वकृतं विचित्रयोनिशो विसन्निवहेतुत्यया तरतमतश्चक्राशनलं वत् स्वकृतानुकृतिः अथवितथा स्वमुर्स्व वितथं तवधामसमं धाम समं विरजतियोऽन्वयत्यम्यव एकरसं स्वकृतपुरेष्वमिष्वबहिरन्तसंवरणं तव पुरसंवदन्त्य किल शक्तेधितो सुकृतम् इति निगृतिं विविच्य कभयो निगमावपनम् भवतो उपासते घ्रिम् अभवं भुवि विश्वसिताः दुर्विगमात्मतत्त्वनिगमाय तवात्तनो चरितमहामृतब्धे परिवर्तपरिश्रमणाः न पर्युं लसन्ति केचिदपवं वरगमपीश्वरते चरणसरोजहंस कुलसङ्गविशिष्टगृह्या त्वदनुपथं कुलाय मिदमात्मः सुहृत्प्रियवं चरिति यथोन्मुखे त्वयि हि ते प्रिय आत्मने च नवत्रमन्त्यहो असदुपासनयात्महनो यदुनशया भ्रमन्त्युरुभये कुशरीरभृतः निभृतमरुन्मनोक्षणि नियोगयुजोहृदीयन्मुनय उपासते तदरयोरपि यजुस्मरणात् तियवृगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समासमृशोऽघ्रीतरोजसुधाः कायिहनुभेद बतावज्जन्म लयोऽग्रसरं यत उदगादृशी यमनुदेवगुणा उभये तर्हि न सन्न चासदुभयं न चा कालजवः किमपि न तदृशाश्रमवकृष्य शयित यदा जनिमस्ततः सतो मृत्युमुतात्मनि ये च भिदां विप्रणिमितं स्मरन्त्योपदिशन्तित आरुपितैः त्रिगुणमपुमाने तेभिदा यद्बोधकृता त्वयि न ततः परद्रस भवेदवबोधरसे